मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं तर्टिसिक्स् गृत्समदवरप्रदानं श्रीगणेशाय नमः गृत्समद उवाच नमस्ते ब्रह्मणां नाथब्रह्मणां ब्रह्मरूपिणे ब्रह्मणस्पदये तुभ्यं गणेशाय नमो नमः ज्येष्ठराजाय ज्येष्ठानां ज्येष्ठपदप्रदायिने ज्येष्ठानां ज्येष्ठरूपाय सर्वपूज्याय ते नमः कर्तॄणां कर्तृरूपाय कवये कविनायक कर्तृभ्यः कर्तृधात्रे वै कविराजायते नमः जगत्सु ब्रह्म सुप्राज्ञ नानाभोगकरायते उपमान्नप्रभोक्त्रे तु ब्रह्मभोक्त्रे नमो नमः सदा मोहयुतायैव मोहमोहकरायते जीवाय बृहदां नाधाय बृहस्पतये नमः सदा ब्रह्मसुखस्थाय परमात्मस्वरूपिणे गुहाहिताय साङ्ख्याय बृहस्पतिसखायते स्वसंवेद्यमयायैव स्वानन्दे योगधारिणे जीवानां ब्रह्मणां संयोगाय ते वै नमो नमः सत्याय योगरूपाय मनोवाणी विवर्जित भद्राणां भद्रकायैव सत्यसत्याय ते नमः सर्वेषां पोषकायैव सोमाया मृदरूपिणे सोमानां सोमदात्रेते पुष्टिनाथायते नमः उत्तिष्ठसृष्टिकर्त्रेते पालकाय हराय च तूर्याय तूर्यातिदायते नमः इन्द्रादिदेवतानां वै हायाय नमो नमः धर्मपालकभावाय धर्माधीशाय धर्मा ते नमः सर्वेषां राज्यदात्रे वै राज्य राजायते ते नमः अराज्याय परेशाय संसारार्णवतारिणे योगेभ्यो योगदात्रे योगयोगायते नमः शान्दिदाय सदा शान्धिष्ठाय तत्पदये नमः इत्यादि भेदा बहवो ब्रह्मणो वेदवाददः तेष्वां स्वामिस्वरूपाय ब्रह्मणे ते नमो नमः किं स्तौमि गणनाधत्वा ब्रह्मणस्पदिरूपिणं भवप्रसन्नो ब्रह्मेश कृपया ते नमो नमः एवं कृत्समधस्तुत्वा गणेशानां महीपते हर्षेणोत्फुल्लनयनो ननर्तप्रेमविह्वलः दृष्ट्वा तं गणराजस्तु जगादखननिस्वनः वरं मत्तस्त्वं धुना स्तोत्रेण तोषिदः त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकं भविष्यदि न सन्देहो मम भक्तिविवर्धनं सदा शान्धिमयो भूत्वा मां भजिष्यसि मानद त्वया कृतेन स्तोत्रेण ब्रह्मभूतो भविष्यसि पुत्र पुत्रपौत्रादिकं सर्वं धन वर्धनं प्रभविष्यदि पाठेन श्रवणेन मुनेष्यदु तस्य तद्वचनं श्रुत्वा सावधानो बभूवः नियम्य हर्षमुग्रं सप्रणनाम गजाननम् उवाच विस्खलद्वाक्यो मुनिर्गृत्समदो महान् गणेशं भक्तिसंयुक्तो भक्तराजेश्वरस्वयम् गृत्समद उवाच धन्यौ मे जनकौनाथ जन्मधन्यं तपोवयः विद्याव्रतादिकं सर्वं त्वदङ्घ्रियुगदर्शनात् अहो साक्षात् गणेशानो ब्रह्मेन्द्रो दृष्टिमागदः मनोवाणी विहीनो न ताभ्याम युक्तो न वै भवान् एतादृशं गणेशानां दृष्ट्वा त्वां किं वृणोम्यहं तथापि वरयामि त्वां त्वदाज्ञा पालनार्थतः ब्रह्मभूताश्च वेदेषु ब्राह्मणा कथिदा अदो मां ब्राह्मणां नाथ कुरु योगीन्द्रवन्द्यकं यथा त्वं ब्रह्मणां नाथस्तथाहं ब्रह्मभूयिनां नाथो भवामि विघ्नेशयोगीन्द्राणां गुरोर्गुरुः त्वदीयपादपत्मे वै भक्तिं देहि गजानन सुदृढां गाणपत्येषु सङ्गं देहि सदा च मे गाणपत्येषु विशेषदह मां कुरुष्व विशेषदः गृत्समदसमो नास्ति गाणपत्यस्वभावदृक एवमुक्त्वा गणेशान्नं प्रणनाम महामुनिः तमुवाच गणेशानो भक्तिं दृष्ट्वा महाद्भुतां श्रीगणेश उवाच गणानां त्वेदिमन्त्रस्य जप खलु कृतस्त्वया सुकृतस्यापि तथा तत्र मुख्यो भविष्यसि ऋषिर्भवमहाभागणानां त्वास्य मन्त्रदः सूक्तस्यापि विशेषेण ब्राह्मणेन्द्रो भवापि तु आदावृक्षश्च यज्ञादौ स्मरणं ते करिष्यति पश्चान्मे देवतायाश्च मुख्यो भवमदीयगे न त्वत्समो भवेत् कुत्र मद्भक्तेषु महामुने मानयिष्यन्ति विप्रास्त्वामत्रिमुख्यानसंशयः त्वदीयस्मरणं नास्ति मन्त्रे वैदिकगे च गणानां त्वा जगिष्यन्ति फलहीनां भवन्तु ते देवा ब्रह्माद्या ब्राह्मणा नराः शेषाद्याश्चासुराद्याश्च त्वां नमस्यन्ति नित्यदा त्वदीया क्रुद्धो दहिष्यामि चराचरं त्वदीयहृदये नित्यं स्थास्यामि भक्त्रिलोलुभः त्वया यत्र तपस्तप्तं तदेव क्षेत्रमुत्तमं भविष्यदि वै पुष्पकं सर्वसिद्धिदं भुक्तिं मुक्तिं ब्रह्मभूयं भक्त्रिं पुष्णादिमानद तेनक्षेत्रं क्षेत्रं समाख्यातं पुष्यगं मत्समाश्रितं यद्यच्चिन्तयसि प्राज्ञफलं भवेद् स्मरणेन महाकाये प्रत्यक्षोऽहं भवामि मुक्त्वा दर्दथे सौ ब्रह्मणस्पतिरञ्जसा स्वयं गुत्समदखिन्नो भवत्तत्रैव संस्थितः ततः स ब्राह्मणैः सार्धं स्थापयामास विघ्नपं ब्रह्मणस्पदिनामानं चकारक्षेत्रसंस्थितं ततो गृत्समदो योगी सर्वमान्यो बभूवः ब्रह्मणस्पदिभक्तश्च ब्राह्मणाय पूजितो भवद यथा गजाननप्राह तथा सर्वं बभूवः मुनिस्तत्र महीपाला भजत्तं स विनायकं नित्यं च मानसिं पूजां चकार बाह्यां चकारविप्रपः गणेशस्यादिभक्तो गृत्समदः सर्वदो बभौ इदं गृत्समदाख्यानं कथितं सर्वसिद्धिदं सर्वपापहरं पुण्यं श्रवणात् पठनान्नृणाम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते विसमदवरप्रधानं नाम षट्त्रिंशत्तमोऽध्यायः ॐ